नमस्कारः नमो नमः नमो नमः अस्माकं वर्गे नमस्कारः अस्तु विना भगिनी आरम्भं करोति वा प्रार्थनां ॐ शुक्लां विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेस्रविधोपशान्तये शान्ताकारम् भुजवशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमनयनम् योगिहृद्यानगम्यम् वन्दे विष्णुर्भवयहरम् सर्वलोकैकनाथम् हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओकवारम् नमः अस्माकं विषयः अस्ति आत्मनेपदे रूपाणि आत्म परस्मैपदिरूपाणि आत्मनेपदिरूपाणि आत्मनेपदिरूपाणि तत् वयं कथाम् अपि पठितवन्तः गतसप्ताहे अनन्तरं प्रथमपुरुषलट्लकार प्रथमपुरुष एकवचनान्त बहुवचनान्त रूपं तत् वयं दृष्टवन्तः अधुना वयं किं कुर्मः Hmm. आत्मनेपदी प्रत्य तथा परस्मपदी प्रत्यारदी वे जानी अधुना आत्मनेपदी रूप कथम तर क्वयो मध्ये केद् अन पुस्तक से पठन होती गा पशन अत्मने कथमंद धातुस्था वंदते वंदे ते वंद वे वंदेथे वंद वंदे वंदमहे वंदमे तत्लत भेद कश्या मध्य स्क्रीन् दृश्यते स्क्रीन् दृश्यते वा uh, no. दृश्यते अत्र पश्यन्तु uh, yeah. uh, uh. uh. परस्मैपदी यदा अहं वद इति धातोः विषये वदामि तदा कथं भवति वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वदामः आत्मनेपदी कथम होती प्रथम पुष मध्यम पुष उत्तमपुरशपत एध इधतुशीघ्र एधबृदौ एधते एधे एधंते एधसे एधेथे एध एधे एधे एधमहे अश्यंतु यहामुषपरस्मेपदी बदा वदामह तत्र आकार अस्ति तत्र अस्त तक सूत्र कार्यम कर दीर्घ तथा अवती वे वावे वंदमहे वंदे वंदमहे वंदमहेधेधाएमहे कलते कल कल कल कल थे, कलेथे कलप् कल कल, कल, कल एवं भवन्ति. रूप हाँ तशा कथम अकम धाप हाँ अगस्ट महोदय भाव भाषा धा विषय आत्मनेपदी वदति वा भाष आं भगिनि भाषते भाष्येते भाषन्ते भाषसे भाषट् भाषधे भाषद्वे भाषे भाष्ये भाषते भाष्ये भाषाखे अत्र कथं तत् इथे इथे योजयित्वा भाषेथे कथं भवति तत्र एकवारं लिखित्वा दर्शयामि कथं भवति इथे भाषेथे कथं भवति तत्र किं भवति अत्र पश्यन्तु उदाहरणार्थं तत्र भाष भाषयोग यदा इते आगच्छति प्रथमपुरुष द्विवचनं तत् किं भवति अत्र अस्ति अत्र अस्ति इ तेन किं भवति अयोग इक्वल् टु ए अतः तत्र भवति भाषेते भाषेते यदा इथे आगच्छति चे? भाषेथे भाषेते एवं ए आगच्छति चेत् किं भवति भाषे कथं भवति भाष उत्तमपुरुष एकवचनं योग इ तदा किं भवति अ इ ए भवति अतः भाषे एवं स्पष्टमस्ति स्पष्टमस्ति वा अतः तत्र सर्वेषां धातूनां कृते तत्र भ्हादीगणत धातु अत तग्छतिकूपेण अत पश्य भाषते भाषे ते भाषंते भाषसे भाषे थे भाषते भाषे भाषावे भाषामहे आकार आगछति हाँ अस् उत्तम धन्यवाद अगोस्ट महोदय धन्यवादः <coughs> राधा भगिनी सः धातोः कृते पदति वा सः धातो आत्मने पद सः सह। सह। सहते सहेते सहन्ते सहसे सहेते सहद्वे, द्वे सहे सहावहे सहामहे उत्तमम् उत्तमम् उत्तमम् अधुना वीणा भगिनी भवती वदति वा मोद इति धातोः कृते मोद पर, आ, हा भगिनि प्रयत्नं करिष्यामि मो, मोदन्ते मोदेते हा मोद मोदे ते, ते मोदन्ते मोद अधिक इते, तेन किं अ इ भूत्वा ए भवति गण अधिक ईश गणेश भवति खलु गण अधिक ईश गणेश ए आगच्छति अयोग इ तथा मोद अधिक ईते मोदेते इति भवति अस्तु भगिनि वदतु मोदेते मोदन्ते वे मोद अधिकद्वे मोदद्वे तत्र न किमपि परिवर्तनं मोद, मो, मोद, मोद, मोद, मोद अधिकद्वे मोदद्वे मोद मोदद्वे मोद, अस्तु भगिनि हा उत्तमपुरुष मोद प्लस इ मोद इ वादे मोद अधिक इ अधिक ई ए, ए मोदे मोदे मोधामहे मोधामहे मोदामहे मोदामहे उत्तमम् एकवारं पुनः एकवारं सर्वाणि रूपाणि वदति वा हाँ. मोदते मोदयते मोदन्ते मोदे मोदेते. अच्छ कथं भवति मोद मोद इते. अत्र किं गण अधिक ईश इति अस्ति तदा किं की, वदति भगिनि गण अधिक ईश गणेश इति वदति खलु हा भगिनि गणेश गणेश इति वदति तथैव मोद इदिक ईते यदा आगच्छति चेत् अकार इकार तेन एकार भूत्वा तत्र भवति मो देते हा अस्तु भगिनि तथैव ईथे आगच्छति तथापि मोदेथे अधुना एकनिमिषं तत्र प्रत्यय मोदते मोदेते मोदन्ते मोदसे मो मोदेथे मो मोदध्वे Hmm. मोदते मोदावहे मोदामहे तत्र मोदयोग ई किं भवितुमर्हति मोदयोग ई मोदे उदे हा अकार इकार मोदे मोदे मोदावहे मोदामहे अधुना स्पष्टमस्ति हा भगिनि मोदे मोदावहे मोदामहे इति इतोपि एकं करोति वा इक्ष धातोः कृते करोति वा हा भगिनि ईक्षते ईक्षेते ईक्षन्ते ईक्षे ईक्षेथे ईक्षसे ईक्षेथे ईक्षद्वे सत्यम् ईक्षे उत्तममस्ति उत्तमं हा अधुना यदा एकार कदा भवति स्वर आगच्छति चेत् तत्र इक्ष अन्तिम तस्मात् परि यदा स्वरागच्छति ईथे वा ईथे तदा एव एकार भवति परन्तु यदा व्यञ्जनं ते वा तत्र से इति आगच्छति चेत् तत्र एकारः भवति केवलं तत्र मेलनं इक्ष ते इक्षसे इक्ष ते इक्षते इक्षेते इक्षेथे इक्षद्वे मेलनम् इक्षद्वे इक्षन्ते इक्षन्ते भारत्महोदय धन्यवादः गाह इति वदति वा गाः धातु गाः ओके गाहते गाहेते गाहन्ते उत्तमं गाहसे गा गाहेथे गाह द्वे गाहे <laughs> गाहा गाहवहे उत्तमम् उत्तमम् अस्ति उत्तमं अधुना जयन्ति भगिनि आं बेणि म्रिय म्रिय इति तत्र मृङ्ग इति धातुः अस्ति तस्य म्रिय इति उप अस्ति वा म्रिय आं म्रियते म्रियते म्रियन्ते म्रियते म्रियेते म्रियध्वे म्रिये उत्तमं अस्तु अधुना तथा अस्ति एकवारं परस्मैपद एकवारम् आत्मनेपद इति दृष्ट्वा वयम् अग्रे चरीमः अधुना तत्र लिखतः तु स्वीकृत्य परस्मैपदीरूपाणि वदतु अहमेव भगिनि आमां जयन्ति भगिनी हा लिख् दातु वा लिख लिख आं लिख लिख लिखति लिखतः लिखन्ति लिखसि लिखतः लिखत लिखामि लिखावः लिखामः तत्र लिखामि लिखावः लिखामः इति भवति भारतमहोदय पत्र धन्यवादः जयन्ति भगिनी धन्यवादः भारतमहोदय पत्रदातु परस्मैपदिरूपाणि वदति वा पत्र ओके ततति तततः ततन्ति ततस्वी ततथः ततथ तथामि तथावह तथामः सम्यक् उत्तमम् अस्ति अधुना वीणा भगिनी जय इति स्वीकृत्य वदति वा जय आम् भगिनि जयति जयतः जयन्ति जयसि जयथः जयथ जयामि जयाव जयावः जयामः कर्ष इति धातु स्वीकृत्य परस्मैपदरूपाणि वदति वा करिष करिष्यति करिष कर्षति कर्षति कर्षति कर्षति कर्षति कर्षतः कर्षन्ति कर्षसि कर्षथः कर्षथ करिष्यामि करिष्यावः कर्ष्यामः कर्ष्यामि कर्षावः कर्ष्यामः कर्ष्यामि तत्र कर्श इत्युक्ते प्लौयिङ्ग् इति अस्ति महोदय हा तत् कर्ष्यामि कर्षावः कर्ष्यामः कर्षा उत्तममस्ति धन्यवादः धन्यवादः अधुना राधा भगिनि राधा भगिनी हा भवती स्मर इति स्वीकृत्य वदतु परस्मै पदरूपाणि स्मर स्मरति स्मरतः स्मरन्ति स्मरसि स्मरतः स्मरथ स्मरामि स्मरावः स्मरामः अधुना किमस्ति यदा वयं कण्ठस्थीकरणं कृत्वा सीतः ती, ती सीथमिवहम प्रत्मेपदी लट्लवान् आत्मनेपदी ते इति अन्ते से इथे द्वे ईवहे महि मन से तदा सुलभता, तत्र सौलभ्य वर्तते अतः तत्याना अवगमन भव्यक दृष्टिया अजुना पशा पुस्तक यदत्तमस्त पढ़ा अक इतनी एक कर्मचा अतः पुता अस्सी केलम एककं त्र कर्तपद स्वीक धातुस्वी क्छति वे तद वे त्र वर्तु तत् वर्तते वर्ते वर्तंते वर्तसे वर्ते वर्त वै वर्ते वर्ता वै वर्ता वै तदा कॉपी यदा वर्त सह वर्तते सह तौ तौ वर्ते एवं कोऽपि वदति वा कर्तुपदस्य योजना वर्धे वर्ध यूस् करणीयं परन्तु अन्य कोऽपि धातुः यूस् कर्तुं शक्यते वा बहिनी न वर्त अपि वा अन्यधातुः अपि भवती इच्छति चेत् वदतु आत्मनेपदीधातु अस्तु भगिनि सः कम्पते तौ कम्पे ते तेः कम्पन्ते शुद्धं वा बेनि आमामां शुद्धम् अग्रिमे मध्यमपुरुष मध्यमपुरुष त्वं कम्पे त्वं कम्पे युवां कम्पेते यूयं कम्पद्वे अहं कम्पे वयम् अहं कम्पे आवां कम् कम्पामहे वयं कम्पामहे तु कर्तृपदस्य योजनेन अधुना परस्मैपद अपि इच्छति वा <coughs> वदामि बेनि सेम् लिक् दातु भवती पूर्वमेव उक्तवती खलु एव स्वीकरोमि सः सः लिखति तौ लिखतः ते लिखन्ति त्वं लिखति युवां लिखतः यूयं लिखत अहं लिखामि वय आवां लिखावः वयं लिखामः उत्तमम् उत्तमं धन्यवादः अन्यकोपि इच्छति वा अन्यकोपि इच्छति वक्तुमिच्छति कर्तृ क्रियापदस्य योजनेन कथं भवति विणा भगिनी प्रयत्नं करोति वा वदतु प्रथमं परस्मैपदी रट रट इति धातु स्वीकरोतु रटधातु सः तौटे रटति रटतः रटन्ति परस्मैपदी वदतु पीतः अन्ति भगिनि हा सः रट सत्यं योग्यं सः रटति तौ रटतः ते रटन्तु उत्तमं मध्यमपुरुष सः रटसि त्वं रटसि त्वं रटसि यू यू यूवं यूवं रथ युवां रथतः यूयं रथथ उत्तमम् अधुना उक्तं पुरुष अहं रथामि आवं रथावः mm -hmm. आवां रथामह अहम् uh -huh. आव आवां वयं अन्तिमं किं भवति वयं huh? वयम् वयं रखामः अस्तु उत्तममस्ति अधुना आत्मनेपदी अपि वदतु अत्र धातु स्वीकरोतु विद्यते अस्तु भगिनि आम... आत्मनेपदी विध्यते, सः विद्यते तौ विद्यते विद्यन्ते ते विद्यन्ते विद्यन्ते अस्तु भगिनि तौ तौ मोदसे त्वं न त्वं त्वं विद्यते त्वं विद्यते त्वं विद्यते त्वं विद्यसे युवां विद् विदेते विद्येते युवां युवां विद् विद्या विद्ये विद्यद्वे विद्यद्वे यूयं विद्यद्वे अस्तु भगिनि योग्यम् उत्तम उक्तं उत्तम पुरुष अहं विध्ये अहं वयं विद्यावहे आ आवां विद्यामहे आवां विद्यामहे वयं विद्यामहे वयं विद्यामहे वयं विद्यामहे अहम् आवां वयं त्वं युवां युयम् अस्तु भगिनि अस्तु उत्तमपयाः उत्तम अस्तु इतोपि कोऽपि इच्छति वा भा? भारतमहोदय इच्छति भा? वा का वदति गीता भगिनी वा श्यामला श्यामला श्यामला भगिनी ओहो अस्तु अस्तु हा अस्तु भारतमहोदय भारतमहोदय भवतः भवतः कृते नय इति परस्मैपदवी नय नयति परस्मैपदवी नय okay. नयति नयतः नयन्ति सः नयति ओके सः सः नयति तौ नयतः मे नयन्ति त्वं नयसि युवां नयतः यूयं अहं नयामि आवां नयावः वयं नयामः भारत भारतमहोदय उत्तमम. अधुना आत्मनेपदी स्मय इति धातु स्वीकरोतु स्मयते स्मये ते कर्तृपदस्य योजनेन वदतु नय राट् right? स्मय स्मय ओके सः मयते तौ मयेते ते मयन्ते त्वं मय मये मये मयसे युवां मयेथे यूयं मयि मयध्वे मये आवां मया मया मया हे मया हे मया महे मया महे मया महे उत्तमम उत्तमस्त भर महोदय उत्तम उत्तम बहु स बहु स श्यामलाछति तत्तपदी पदी अधुना सः स्विह्यतः स्नीहति सः मियति तौ मीयते स्नीहतः तौ स्निहतः तौ ते निय मीयताः स्मीयन्ति स्मीयन्ति स्मि सः स्मीयतः तौ स्मीय स्मीयति ते ते सः सः स्मी तौ स्मीय स्मीयन्ति ते स्मीय स्मीयति अग्रिमे न इ हीय सः नीयति तौ स्मीय स्मीय ते स्मीयन्ति अग्रिमे किं वदति भगिनि स्थी तत्र किं वदति सः स्थीय स्थीय तः तौ स्थीय स्थीय स्थीयति स्थीयति आ, ते एकवारं भगिनि एकवारं किं करोतु एकवारं तस्मीह धातोः कृते सर्वाणि रूपाणि परस्मैपदिरूपाणि लिखन्तु ह सर्वेषां कृते अपि सर्वे अपि लिखितुं शक्नोति तथा अनन्तरं सः तौते एकनिमिष श्रुणोतु सः तौते त्वं युवां यूयम् अहम् आवां वयम् एवं सर्वं लिखतु अनन्तरं योजनेन वाक्यरचनां करोतु लिखित्वा अग्रिमे वर्गे अपि भवती वदति चेत् अपि चलति लिखित्वा एकवारं लिखित्वा तस्य अवगमनम् अधिकतया अधिकसम्यक्तया भवितुम् अर्हति हा लिखित्वा लेख हा चिन्ता मास्तु क्लेशः अस, अस्तु आ, हा न न तत् सुलभ भवति तत् एकवारं लिखोति भगिनी तदा सम्यक् भवति अस्तु चिन्ता मास्तु अस्तु भगिनी अवश्य महोदय धन्यवादः अवस्तु महोदय स्पृश इति धातु परस्मैपदी तत्र कर्तुपदस्य योजनेन सः स्पृश्यति तत् स्पृशति सः स्पृशति तत् वाक्यरचना करोतु स्पृशति इति आमां स्पृश इति धातु स्पृशति इति रूपं परस्मैपदि स्पृशति कः स्पृशति तौ स्पृशतः ते स्पृशन्ति त्वं स्पृशसि युवां स्पृशथः यूयं स्पृशथ अहं स्पृशामि स्पृशामः स्पृशावः तत्र आकार <laughs> आगच्छति अतो दीर्घोयै तत् एकं सूत्रमस्ति तस्मात् कारणात् तत्र आकारः गच्छति अतः स्पृशाव स्पृशावः स्पृशामः सम्यक् उत्तमम् अधुना आत्मनेपदिधातु तत्र आत्मनेपदी धातु भवान् तत् लज्ज लज्ज इति स्वीकरोतु लज्जते इति रूप सः लज्जते तौ लज्जेते ते लज्जन्ते उत्तमं त्वं लज्जसे युवां लज्जेते लज्ज्वे ल यूयं लज्ज लज्जमहि लज्जामहे वयम् इति खलु वयं लज्जामहे लज्जे लज्जामहे लज्जामहे अहम् आवां वयम् उत्तमम् उत्तमम् अस्ति अधुना अन्तिम राधा भगिनी धन्यवादः राधा भगिनी वदति राधा भगिनी दिश दिश दिश परस्मैपरि दिशति इति सः दिशति दिशन्ति त्वम् दिशसि mm -hmm. युवां mm -hmm. दिशतः यूयं mm दिशथ -hmm. अहं दिशामि आवां दिशावः mm -hmm. वयं दिशामः उत्तमम् अधुनात्मनेपदि ऊह ऊह इत्युक्ते तत् अनुमानं करणीयं तत् तर्कं करणीयमिति तत् ऊहते mm -hmm. इति उक्तवान् सः ऊहते तव ऊहेते ते ऊहन्ते त्वम् ऊहसे युवाम् ऊहेते यूयम् ऊहद्वे अहम् ऊहे उत्तमम् उत्तमं बहु सम्यक् बहु सम्यक् अधुना श्यामलाभगिनी भवती एकवारं लिखतु हा तत् तत, तत, सः अग्रिमे वर्गे अपि भवती तत् किञ्चित् लिखित्वा पश्यति चेत् सम्यक् भवति तत्र काठिन्यं न वर्तते अस्तु अग्रिमे वर्गे निश्चयेन वदतु अस्तु पुस्तकमेव आमां पुस्तकं प्रति गच्छामः अस्माकं गीतासोपानं यत् वयम् अधुना कृतवन्तः तदेव सर्वम् अस्ति अतः तत्र सौलभ्यं भवति इति पश्यामः किमस्ति पुस्तके एवं सर्वमस्ति तत् मेचिङ्ग् कृतं दृश्यते अहमावां वयं तं युवां युवम् अत्र तथैव वयं कृतवन्तः रूपाणि अपि वयं सर्वे ज्ञातवन्तः अत्र अस्ति पश्य आरम्भं कुर्मः श्यामलाभगिनी भवती एव पठति वा एतानि वाक्यानि सावदता पठामि एतानि वाक्यानि या उच्चैः पठत परिशीलयत च अर्जुनः पृच्छति मूर्खः अर्जुनः अर्जुनः पृच्छति अजुना, कृष्णः भाषते एवम् अर्जुन अजु, अर्जुनः पृच्छति कृष्णः भाषते मूर्खः सोच्छति पण्डितः मा मन्यते अग्निः ज्वलति सूर्यः प्रका प्रकाशते अहितः निन्दति श्रेयः विद्यते एषा अभिनन्दति सः वर्तते एतेषु वाक्येषु क्रियापदेषु परस्मैपतिधातूनां रूपाणि प्रयुक्तानि सन्ति एतेषु वाक्येषु क्रियापदेषु आत्मनैपदी धातूनां रूपाणि प्रयुक्तानि सन्ति एतानि क्रियाणि रूपाणि लट्लकारस्य प्रथमपुरुषै पुरुषैकवचनरूपाणि अवधेयमपि पठितु अवधे अवधेयं क्रियापदस्य मूलं धातुः यथा पठति इत्यस्य क्रियापदस्य मूलं पट् इति धातुः धातवः त्रिविधाः सन्ति परस्मैपदिनः आत्मनैपतिनः उभयपदिनः च इति पट् लिक् ग्रीड् मिल् गङ् इत्यादयः धातवः परस्मैपतिनःपतिनः धातुनाम धातूनां लट्लकारस्य प्रथमपुरुषेकवचनरूपेषु अङ्के ते इति श्रूयते यथापदीनां धातूनां लट्लकारस्य प्रथमपुरुषेकवचनरूपेषु अङ्के ते इति श्रूयते यथा यथा वीक्षते लज्जते कम्पते उभयपदीनां धूधातूनां लट्लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ते <coughs> एतदुभयमपि श्रूयते यथा करोति <coughs> कुरुते याचति याचते जानाति जानीते सम् <coughs> धन्यवाद धन्यवादः भगिनि <coughs> <रहा वा> <coughs> अधिना जयन्ति भगिनी पठति वा अग्रिमे आम् बेङ्ग् पठामि बेन् अस्तु अधः कानिचित् क्रियापदरूपाणि सन्ति एतेषु परस्मैपतिधातूनाम् आत्मनेपथिधातूनां च रूपाणि छिन् छिन् रूपाणि विनचितु विना विचिनुत विचिनुता विचिनुता हा अत्र पश्यन्तु कथं वयं जानीमः अस्तु एषः धातु परस्मैपदिधातु एषः धातु आत्मनेपदिधातु तादृशम् अस्माकं मूलस्वरूपे धातुपाठे किम् अस्ति तदनन्तरं सूत्राणि तस्य अध्ययनम् अस्माकं नास्ति परन्तु कथं वयं जानीमः तत्र प्रत्ययान् प्रत्ययान् अनुसृत्य यथा वयं दृष्टवन्तीत तथैव अत्र ते तथैव तत् पश्यति इति भवति चेत् लज्जते इति भेदः अस्ति पश्यत् इति परस्परं प्रति दातु प्रथमपुरुषे एकवचनं लज्जते इति आत्मने प्रति एकवचनम् कामयते इति आत्मनेपति प्रथमपुरुष एकवचनं तिष्ठति इति परस्मैपति प्रथमपुरुष एकवचनं वर्तते इति आत्मनेपति प्रथमपुरुष एकवचनं विद्यते इति आत्मनेपति प्रथमपुरुष एकवचनम् अस्ति इति प्रथमपुरुष एकवचनं परस्मैपति धातु पलायते इति आत्मनेपति प्रथमपुरुष एकवचनम् वदति इति प्रथमपुरुष एकवचनं परस्मैपतिदातु स्मरति इति परस्मैपतिदातु प्रथमपुरुष एकवचनं स्मर्याते अधुना भगिनि एकनिमिषम् अधुना हुँ। अधुना एतत् सर्वं तु भवती उक्तवती हा अत्तनेपदी परस्मपदी अधुना कर्तृरूपेण तत्र अहं योजनां कर्तुं यदा इच्छामि तदा कर्तृरूपेण एके शब्दाः आगन्तुं शक्नुवन्ति अस्तु भगिनि बालकः पश्यति सीता लज्जते कुमारः काम्यते सारि कामयते अधुना एकनिष अधुना भगिनि सर्वनामरूपाणि वदतु अस्तु सः सः कामयते स्त्रीलिङ्गमपि uh, uh, प्रयोगं प्रयोगं कर्तुं शक्यते वा सा तिष्ठति सा तिष्ठति सः वर्तते सा विद्यते सः नपुसकलिङ्गि बे, बेनि नपुसकलिङ्गि अपि एक सः वर्तते सः वर्तते सा वर्तते सः विद्यते सा विद्यते सः अस्ति सा अस्ति नपुंसकलिङ्गत् विद्यते तद् अस्ति सः अस्ति सा अस्ति सः पलायते सा पलायते तद् पलायते सः वदति सा वदति तत् वदति सः ऐ मीन् ओके सः स्मरति सा स्मरति तद् स्मरति सत्यम् उत्तममस्ति उत्तमं धन्यवादः धन्यवादः अत्र अत्र भवती पश्यन्तु सर्वे एषः एषः अपि अस्ति सः अस्ति एषः एष सर्वं वयम् उपयोजितुं अग्रिमे भारतमहोदय अग्रिमे करोति वा स्मयते भाषते प्रथमतः तु रूपाणि तत्र चयनं करोतु स्मरयते okay. स्मयते स्मयते एकनिमिषम् आगच्छति क्षम्यताम् भवाद किम् अभवत् न दृश्यते वा अधुना दृश्यते स्मयते दृश्यते वा आ, हा दृश्यते स्मयते आत्मनेपदी एकवचन् भासुते आत्मनेपदी एकवचन पतति परस्मैपदे आत्मनेपदे एकवचन कर्षति परस्मैपदे एकवचन स्नेहति स्निहति परस्मैपदे एकवचन स्नाति एकवचन स्पृशति स्पृशति परस्मैपदी एकवचन कम्पते आत्मनेपदी एकवचन्रियते एक एक म्रियते भ्री, एक आत्मनेपदी एकवचन रटती हाँ अग्रिमेटती रटती परस्मपदी एकवचन नयती परी एक दिशति परस्पी एक आत्मनिपदी एकवचन एक परस्म पदी एक आत्मनिपदि एकवचन् hmm. मोदते आत्मनिपदि एकवचन् hmm. गच्छति परस्मैपदी एकवचन् ईक्षते hmm. आत्मनिपदि एकवचन् hmm. उत्तमं यथा यथा भवन्तः सर्वे तत् लट् लकारप्रथमपुरुष एकवचनप्रत्ययं दृष्ट्वा ज्ञातुं शक्नुवन्ति तथैव सर्वेषां प्रत्ययं कृते यदा अस्माकं स्वरणे भवति टीतः अन्ति शीतः त मि अन्ते से इथे द्वे ए वहे इ वहे महे तदा एकवारम् अस्माकं स्वर्णे अस्ति चेत् वयं तस्य अवगमनं सम्यक्तया कर्तुं शक्नुमः इति अस्ति उत्तमम् उत्तममस्ति भारतमहोदयः हा अस्तु तु अधुना वीणाभगिनी एतत् पठति एधातोः रूपाणि तथैव सहधातो रूपाणि पठति हा भगिनि एध धातो लट्लकारे रूपाणि एवं भवति <coughs> एधते एधेते एधन्ते एधसे एधेथे एधद्वे एधे एधावहे एधामहे <coughs> सः धातोरूपाणि एवं भवति सहते सहेते सहन्ते सहसे सहेथे सहध्वे दहे सहावहे सहामहे एवं सर्वम् अधुना अस्माकं पुस्तके तत्र एकम् उदाहरणं स्वीकृत्य एधधातोः कृते तथैव सह, मूलतः श्वः अस्ति अनन्तरं शकार मूर्धन्यशकारस्य सकार भवति तत्र धात्वा देः शः सः इति एकं सूत्रं तेन भवति तत् एवं तत्र दत्तं वर्तते परन्तु यदा अस्माकं मनसि ते इथे अन्ते से इथे द्वे ए वहे महे इव क्षम्यताम् इ महे एवम् अस्ति तदा अस्माकम् अवगमनं भवति अस्तु वीणा भगिनी धन्यवादः अग्रिमे तत्र उच्चैपथति तत् वयं कुर्मः पत्थत, अभ्यासेन ज्ञानं वर्धते कामात् क्रोधः जायते उत्पन्नः जीवः अत्र एकनिमिषम् अत्र पश्यन्तु सर्वे तत्र भगवद्गीतायां ये श्लोकाः सन्ति तेषाम् आध अधिकृत्य एव एतत् सर्वमस्ति अभ्यासेन तु कौन्तेय अभ्यासेन ज्ञानं वर्धते कामात् क्रोधः जायते उत्पन्नः जीवः म्रियते यदा जननं भवति तदा मरणं तत्तु भवति एव निश्चयेन उत्पन्नः जीवय जीवः म्रियते अनन्तरं हस्तात् गाण्डीवं स्रंसते गाण्डीवं स्रंसते हस्तात् इति कस्य स्थितिः अस्ति वा अवस्तु महोदय गाण्डीवं हस्तात् स्रंसते कस्य कस्य कस्य भौ अर्जुनस्य अर्जुनस्य अर्जुनस्य तत् प्रथमे अध्याये अर्जुनविषादयोगः इति अस्ति खलु तत्र सः वदति गाण्डीवं संस्थते हस्तात् त्वस्यैव परिशिष्यते स्वत्यैव परिदयते न शक्नोमि अवस्था तु भ्रमते एव मम मन एवं सर्वं भवति हा तद् अर्जुनस्य अवस्थावर्णनम् इति अस्ति चक्रं हा किं भवति अहं किमपि कर्तुं न शक्नोमि मम पुरतः मम बान्धवाः मम गुरुः मम पितामहः मम मातुलाः पुत्राः पौत्रा एवं सर्वं सन्ति अहं किमपि शक्नो शोका शोक अशोकग्रस्त मोहग्रस्त अवस्था अहम कि शक्नोमी अहम युद्धम न कौमी गांडीवते हता वजती हाँ अस्त अग्रिम पठत भक्त जीवः सुखं कामयति सः अमृतत्वाय कल्पति mm. स्थितप्रज्ञः किं भाषति mm. शधवान् ज्ञानं लभति ईश्वरः mm. सर्वत्र वर्तते mm. अभिमन्युः चक्रव्यूहम् Hmm. भीष्मः सर्वान् क्षमते कुन्ती कष्टम् सहते hmm. सञ्जयः युद्धम् अवलोकते अवलोकते महोदय सञ्जयः इत्युक्ते कः सोरि भगिनि सञ्जयः इत्युक्ते सः किं कृतवान् तत्र सञ्जयः तत्र अवलोकनं कृत्वा सर्वं यथा तत्र किमपि तत्र दृश्यते तस्य अवलोकनं कृत्वा यानि यानि घटकानि तत्र सन्ति सर्वेषाम् अवगमनं कृत्वा सर्वं धृतराष्ट्रं वदति तत्र वार्ताहार इति रूपेण सः कार्यं करोति प्रत्यक्षदर्शी सञ्जयः परन्तु समीपे सह स्थित्वा दिव्यदृष्टेः युद्धस्य अवलोकनं कृत्वा सह वदति सञ्जयः उत्तमम् अग्रिमे कृष्णः कृष्णः अश्वान् योधः युद्धार्थं त्वरति उत्तममस्ति धन्यवादः धन्यवादः अधुना वयं कथायाः अर्चनं कुर्मः कथां प्रति गच्छामः अत्र कथा किञ्चित् भिन्नप्रकार न जानामि गीर्वा कथा अस्ति पश्यामः राधाभगिनी भवती आरम्भं करोति वा आं भगिनी भगिनी रमा भगिनी अस्ति भगिनी नमस्ते भगिनि अस्ति वा अस्तु अस्तु अस्तु हा प्रथमं राधाभगिनी आरम्भं करोति अनन्तरं भगिनी भवती एव पठतु संस्कृतज्ञा महीषा महीषी महिषी इत्युक्ते एक्स्पर्ट् इत्युक्ते न महिषी इत्युक्ते बफेलो अत्र दृश्यते खलु ओके बफेलो ओके अत्र महिषी अपि संस्कृतज्ञा भवितुम् अर्हति छात्रजीवने एव संस्कृतसम्भाषणे महती रुचिः आसीत् मम सम्भाषणकौशलं सम्पादितं मया एतत्तु uh, स्पष्टमस्ति सः लेखकः वदति तस्य कृते महती रुचिः आसीत् छात्रजीवनतः अतः सः प्रयत्नं कृतवान् यथा वयं सर्वे प्रयत्नेन एव तत् प्रयत्नम् एव वयं सर्वे कुर्मः तथैव सम्भाषणकौशल्यं सः प्रयत्नेन सम्पादितम् मया तेन सम्पादितमस्ति सम्भाषणकौशल्यं प्रयत्नेन इति सः वदति अग्रिमे उच्चाध्ययनं यदा समाप्तं तदा चर्चा आरब्धा इत्युक्ते हैर् एजुकेशन् उच्च अध्ययनं समाप्य तत्र गृहस्थाश्रमप्रवेशचर्चा इत्युक्ते तत्र uh, परिवारे uh -huh. माता वा पिता अबौट् मेरेज् गृहस्थाश्रमस्य कदा तस्य विवाहः करणीयः इति चिन्तनं विवाहानन्तरं huh? uh -huh. मम प्रयत्नेन सह धर्मिणी अपि संस्कृतसम्भाषणम् आरब्धवती तस्य पत्नी अपि संस्कृतसम्भाषणं कृतवती ततः पुत्री जाता तस्याः एक पुत्री जाता विशेषकाठिन्यं विना एव सा अपि संस्कृतेन सम्भाषणं कर्तुं समर्था जाता पुत्री अपि संस्कृतं सम्भाषणं करोति हा तत्र बा बाल्यकालातः ये ये शब्दाः तद्बालकः शृणोति तस्य दृढीकरणं मनसि झटिति भवति अतः तस्य पुत्री अपि विशेषकाठिन्यं विना सहजतया सा अपि संस्कृतेन mm. सम्भाषणं कर्तुं समर्था जाता इति सः वदति mm. अनन्तरं uh, ततः पुत्रयोः जन्म जातम। जातं पुत्रयोः अनन्तरं तौ अपि संस्कृतसम्भाषणकुशलौ जातौ दे आल्सोर्ट् इन् इदानीं ते त्रयः अपि संस्कृतेन अलपन् आलपन्तः खेल खेल खेलन्ति खादन्ति कलहं कुर्वन्ति च So, त्रयोः संस्कृतेन अपि सर्वे सम्भाषणं खेलन्ति खादन्ति वन्ति mm -hmm, सर्वदा एव सर्वे सम्भाषणं करोति एतद्दर्शं दर्शम् अहम् आनन्दम् अनुभवामि सः बहवः आनन्दम् अनुभवति एतद् तस्य तस्यापि रुचिः अस्ति बाल्यकालातः अधुना पत्नी अपि सम्भाषणं कर्तुं शक्नोति संस्कृतेन अनन्तरं सन्ततिविषये अपि तत् सर्वे सम्भाषणं सहजतया कुर्वन्ति आनन्दस्य विषय सन्तोषस्य विषय अस्तु धन्यवादः भगिनि उत्तमं अधुना अग्रिमे भारतमहोदय पठति वा आं भगिनी hmm. मम तु ग्रामे वासः hmm. एका महिषी एका hmm. गौ च पालिता अस्ति मया hmm. मम ग्रामे वासः वासः इत्युक्ते स्टे हा? ग्राम okay. इत्युक्ते विलेज् एक, एका तत्र एका महिषि इत्युक्ते बफेलो काव् तत्र right. च पालिता बफेलो एण्ड् खाव् पालिता अस्ति आमां कदाचित् मया चिन्ततं चिन्तितं चिन्तितं मण्डन मिश्रमहोदयस्य गृहे लुकाः यथा संस्कृतम् अवगच्छन्ति स्म तथैव मम गृहे महिष्यादयः कुतो वा संस्कृतं न अवगच्छे गच्छेयुः अत्र तस्य मनसि किम् आगच्छति लेखकस्य मनसि इत्र इति Uh, okay. महान् तत्र ज्ञा uh, विद्वान् अस्ति ज्ञानी अस्ति सः मण्डनमिश्रशङ्कराचार्येण सह तत्र uh, uh, शास्त्रार्थं uh, जातं पुरा okay. तत् okay. मण्डनमिश्रमहोदयस्य गृहे एका कथा okay. आसीत् okay. तत्र शुकाः अपि okay. संस्कृतं वदन्ति yeah. ये शुकाः इत्युक्ते पेरेट् ते अपि अवगच्छन्ति वदन्ति मण्डन्मिश्रमहोदयस्य गृहे यदा शुकाः अवगच्छन्ति वदन्ति तदा मम गृहे अपि वदेत् इति गौ ये ये पशवः सन्ति ते अपि वदेत् इति तस्य चिन्तनम् अस्तु महिषी शूनि मार्जार्यादयः <laughs> गो गोमिषी सुनी मजार hmm. आंग आं, आंग्लिया गृह यदि hmm. आंग्लभाषा अवगन अर्म hmm. hmm. आंग्लदेशन अनुपाल अ तर्हि मम गृहे महिष्यादयः कुतो वा मम आदेशान् न पालयेषु पालयेयुः पालयेयुः पालयेयुः पालयेयुः इति अत्र सर्व तत्र विधिलिङ्गलकाराणि दृश्यन्ते किमस्ति तस्य चिन्तनम् मण्डनमिश्र महोदयस्य गृहे तु शुकाः संस्कृतेन वदन्ति अनन्तरं गो महिषी शुनि मार्जार इत्युक्ते कौ बफेलो डॉग्स, एण्ड् केट् हा आङ्ग्लप्रियाणां गृहे इत्युक्ते तत्र कं हिय गोदेर् इड्डिस् डोण्ट् बार्क् डोण्ट् डूदेश् एवं सर्वम् एतादृशाणि सूचनाः एतादृशाः सूचनाः यदा अन्येषां गृहे सर्वे पशवः पालयन्ति तदा अहमपि मम गृहे अपि महिषी वागो ते मम संस्कृत आदेशान् अवगमनम् अवगमनं तेषां कृते सम्यकता भवेत् ते अपि पालयेयुः इत्युक्ते तेषां कृते अपि पालनं भवेत् इति मम आदेशान् इति सः चिन्तयति स्पष्टमस्ति hmm. वा yeah. अधुना ततः ततः मया कदाचित् महिषी आदिष्टा भोः hmm. भवत्या hmm. संस्कृतज्ञस्य गोष्ठे वासः क्रियते hmm. अतः भवत्या संस्कृतम् अवगन्तव्यम् एव इति ah. महिषीं वदति बफेलो आदिष्टा इत्युक्ते आर्डर् भो भवत्या संस्कृतज्ञस्य गोष्ठे वासः क्रियते स्टेबल् यत् अस्ति तत्र संस्कृततज्ञ अहं संस्कृततज्ञ मम गृहे भवती अस्ति भवती निवासं करोति अतः भवत्या संस्कृतम् अवगन्तव्यम् एव इट् इस् युर् ड्यूटि टु अण्डर्स्टाण्ड् संस्कृत् कथं भवती मम गृहे तिष्ठति इति सः वदति हा महिषीं वदति एतावत्पर्यन्तं mm -hmm. स्पष्टमस्ति सर्वेषाम् एतावत्पर्यन्तम् अस्तु mm धन्यवादः -hmm. हा अग्रिम धन्यवादः अग्रिमे विन्या भगिनी पठति वा वीणा भगिनी अस्ति वा महिषी शिरः अचालयत् तत् अङ्गीकारपूर्वकम् उत निराकरणपूर्वकम् इति मया न ज्ञातम् Hmm. मया तु निर्णीतं सा अङ्गीकारपूर्वकम् hmm. एव शिरः चा चालितवती इति <laughs> <laughs> यदा आ, यदा लेखकः पृच्छति तदा महिषी शिरः अच अचालयत् hmm. तस्य चालनं दृष्ट्वा लेखकः hmm. निर्णयत् सः पूर्व एव अचालयति इति सम्यक् बहु सम्यक् परन्तु तत् यस् अस्ति वा नो अस्ति तत् न परन्तु ऐ एम् एक्सेप्टिङ्ग् देट् शी इेङ्ग् एस् इति मया तु निर्णीतं सा अङ्गीकारपूर्वकं देट् इस् एक्सेप्टेन्स् निराका निराकरणपूर्वकम् इत्युक्ते नाट् एक्सेप्टिङ्ग् परन्तु अङ्गीकारपूर्वकमेव शिरः चालितवती इति मया तु निर्णीतं देट् इस् मै डिसिशन् कन्क्लूडिङ्ग् सा अङ्गीकारं करोति अहं किम् उक्तवान् अहम् उक्तवान् भवती तु संस्कृततज्ञस्य गृहे निवासं करोति तत् संस्कृतस्य अवगमनं भवेत् एव अचालयत् तदा लेखकः वदति हा हा इत्युक्ते सा अङ्गीकारं कृतवती कृतवती अस्तु वत् पश्यामः अत्र अधुना हा अनन्तरं पठ ततः मया महिषे तत् समापयतु एक एकम एकं परिच्छेदं पठतु वीणा भगिनि ततः हा अस्तु भगिनि ततः मया महिष्यै गावे च संस्कृतेन एव आदेशदानं आरब, आरब्धम् hmm. प्रातः जलदान समये, सायं घासदानसमये च hmm. गृहजनाः अपि माम् एव अनु अनुकुर्वन्ति स्म hmm. निरन्तरेण एतादृशेन प्रयत्नेन महिष्यादयः अपि देशस्य पालने समर्थाः जाताः किं दत्तमस्ति अत्र हि स्टार्टेड् स्पीकिङ्ग् एण्ड् ऐ मीन् गिविङ्ग् कमाण्ड्स् इन् संस्कृतं प्रातः चारणसमये मार्निङ्ग् वेन् चारण चारणसमये इत्युक्ते वेकिङ्ग् टैम् भगिनि yeah yeah feeding इत्युक्ते देट् इत्युक्ते मोर्निङ्ग् आफ़्टर्नून् अण्ड् इविनिङ्ग् वटव एनी आक्टिविटि ही वा ट्रायिङ्ग् टु स्पीक् संस्कृतं वित् द animals and all the family members followed the सेम् ah nirantarena aitadrishe uh, uh, this became a regular routine hmm to uh, so the the the animals all the cattle also uh, got used to it and probably they also learnt sanskrit samskrutam ah sanskruta desasye itute sanskruta adeshasya orders given in Hmm. संस्कृत पालने समर्था यूस् टु ओबि समर्थाः जाताः कण्टिन्युयस् रिपीटेशन् आफ़् दोस् वर्ड्स् बै आल् फेमिलि मेम्बर्स् तेन किं भवति महिषादयः अपि संस्कृत आदेशस्य पालने समर्थाः जातः अस्तु धन्यवादः अग्रे रमा भगिनी रमा भगिनी पठतिवा वा रमा भगिनी पठतु कृपया मम गृहे मम गृहे गौहि महिषी कुकु कुक्कुरः इत्यादयः सर्वे अपि संस्कृतादेशं सम्यक् अनुपालयन्ति इत्येतत् दृष्टवा दृष्टवताम् अभ्या अभ्यागतानाम् अतिथीनां बन्धूनां प्रतिवे प्रतिवेशिनां महत् आश्चर्यम् इत्युक्ते किं भगिनि तद्दृष्ट्वा रिलेशन्स् अण्ड् आल् नैबर्स् एव्रिवन् अस्मानि अभ्यागतानाम् इत्युक्ते गेस्ट् आल् गेस्ट् अभ्यागता इत्युक्ते तत्र अन् एक्स्पेक्टेड् गेस्ट् अतिथि इत्युक्ते प्लेनिङ्ग् प्लान्ड् विसिटर्स् एण्ड् आल् बन्धूनां प्रतिवेशिनां सर्वेषां कृते तस्य आश्चर्यस्य विषयः कथं सर्वे अत्र संस्कृतेन आदेशं पालयमेव करोति अग्रिमे पठतु महिष्यः महिष्यः तावत् प्रायः दृष्टा भवन्ति तडागजलसेवनकाले तु तासां दाश् दार्ष्ट्यं दार्ष्ट्यम् अधिकं दार्ष्ट्यम् अधिक, अधिक, अधिकं, अधिकं प्रायशः तडागे उपविष्टाः ताः पौनःपुण्येन आहूताः अपि जलात् न निश्चरन्ति मम महिषी अपि निपानसलिलम् अव अवगाहमान अवगाहमाना चाणन् चानन्तं तस्मिन् तिष्ठति स्म अधुना अतः अधुना पृष्ठा भवन्ति is तथा जलसेवनकाले तु तासां दास्यम् अधिकं प्रायशः तत् धैर्य धैर्य ते सर्े जलसे कालेक् त्र त धार्ट्यम अवृत्त युद्ध ते कह तैर्यवृत्तिया ते, ते कहवन काले तड़ागे ते तड़ागे ते सरोवरे तत्र ते जलान ग्र आगच्छन्ति तत्र पति निवर्तनं न कुर्वन्ति ते इति धार्ष्ट्र इति <laughs> <laughs> आहूतसमये अपि न आगच्छन्ति न आगच्छन्ति निश्चरन्ति न निश्चरन्ति मम महिषी अपि निपानसल सलिलम् अव अवगाहमाना ानन्तं तस्मिन् तिष्ठति स्म तत्र मम महिषी अपि तस्मिन्नेव तिष्ठन्ति तिष्ठन्ति स्म तिष्ठति स्म मम महिषी अपि स्म अग्रिमे अग्रिमे पर्यन्त कालक्ष कालक्षेप, कालक्षेपम् अस असहमानेन असहमानेन मया आहूयते स्म भोः कर्तमा कर्तनप्रिये आगच्छावः तावत् इति तावत् इति तदा सा भूयोऽपि कर्तमालो अत्र पश्यन्तु कर्दम इत्युक्ते मड् कर्दम, कर्दम कालक्षेपम् असहमानेन मया आहूयते तत्र कालसमयः जातः समयः अतीतः सा तत्र एव तिष्ठति तदा सह असह तत् कर्दम प्रिते ओ मढलवर मडलवर् आगछ गति ग आगछ संस्कृतेन सह संस्कृतेन सह आहूय तदा सा साूय कर्दमालोड़नम्छ भूये पुनः पुनः कर्दम it to that mm. rolling particularly rolling in a mud she is enjoying right ha hm tate eva ichanti urve urve itte eva rotisma rove ha tathaauti ketatra swaram karoti dhvanim karoti atra urve urve iti buffalo uh, particular voice parantu saha mm. kim uh, सः किं तत्र तस्य मनसि किम् आगच्छति संस्कृतेन एव सा वदति इति सा न, न आगन्तुम् इच्छति परन्तु तदापि सः संस्कृतेन एव उत्तरं ददाति इति सः चिन्तयति सा भूयोऽपि कर्दमालोडनम् इच्छन्ति उर्वे उर्वे इत्येव रौति स्म रौ इत्युक्ते तत्र ध्वनिं करणीयम् mm. इति अस्तु धन्यवादः भगिनी धन्यवादः अधुना अग्रिमे अगस्ट् महोदय भवान् पठति वा अस्तु किं सा इति अस्तु दाश निमेषान् पुनरपि जले तिष्ठ इति मया यदा पृच्छ्यते तदा अत्र सः वदति सा ध्वनिं करोति तदा सः वदति अस्तु दशनिमेषान् पुनरपि जले तिष्ठ ओके एन्जोय् फार् मोर् टैम् दशनिमेषान् दशनिमेषानि ददामि तत् तदासा तत्र तदा अवगाहते स्म कर्दममिश्रितं जलं तदा शी स्टिल् एञ्जायिङ्ग् देट् um, कर्दममिश्रितजलं देट् मडि वाटर् huh? अधुना अनुमतकालम् अतिबाह्य पठतु महोदय अनुमतकालम् अतिबाह्य अपि यदा सा जले तिष्ठति तदा विपानात् निस्सारणाय मया अदिष्टा सा पुनः प्रार्थयति स्म उवे इति महिषेः खलु अनुमतकालम् अतिबाह्य अनुमतकालं पर्मिटेड् पीरियड् अतिबाह्य देट् हेस् क्रास् देट् टैम् आल्सो समयः अतीतः अपि सा जले तिष्ठति सा तत्र एव स्थातुमिच्छति तदा निपानात् निस्सारणाय मम मया आदिष्टा सा पुनः प्रार्थयते स्म तत् ध्वनिः अधुना समयः अतीतः अतः तत् लेखकः अधुना आगच्छतु तत्र अधुना अस्माभिः गन्तव्यमस्ति आगच्छतु जलात् बही आगच्छतु इति सः आदेशं ददाति अफ्कोर्स् तत् संस्कृतेन एव सः संस्कृतेन एव वदति तदा सा प्रार्थनाम करोति यथा बालकः यदा वयं वदामः तत्र इनफ अफ़् प्लेयिङ्ग् नौ गो बेक् टु होम् तदा ते कथं वदति इतोपि इतोपि इतोपि इतोपि तथैव तथैव सा पुनः पुनः प्रार्थयते परन्तु तस्याः ध्वनिः कथम् उवे ऊवे इति बेलोस् किपिकल् देट् सौण्ड् अगेन् नौ इदानीं सः किं चिन्तयति अहम् आवयामि परन्तु सा प्रार्थनां करोति संस्कृतेन एव सा प्रार्थनां करोति इतोपि खेलनं भवेत् इतोपि तत् कर्दममिश्रितजलेन तत अहं खेलितुम् इच्छामि इति सा वदति संस्कृतेन एव उत्तरं ददाति इति लेखकस्य चिन्तनम् स्पष्टमस्ति स्पष्टमस्ति वा uh, um, अगरी में अग्रिमे अग्रिमे पद तो रोषाविष्टन रोषाविष्ट मै यदा भत्न भंग्याच्यपे दुष्टे अहम तदा गृह स्म अत्र किं भवति यदा अस्माकं बालकः तत्र क्रीडाङ्गणे अस्ति वयं तत्र गत्वा वयम् आह्वयामः तदा सः किं वदति इतोपि खेलामि इतोपि खेलितुम् इच्छामि तदा वयं कदा कदा कोपेन वयमपि वदामः आगच्छतु नो चेत् अहं गच्छामि अहमेव गच्छामि गृहं तथैव अत्र अभवत् रोषविष्टेन इत्युक्ते आङ्ग्रिली रोषाविष्टेन रोष आविष्टेन हा रोषविष्टेन मया तदा भर्त्सन् भर्त्स इत्युक्ते तत्र निन्दा निन्दायाः इत्युक्ते किञ्चित् तत्र कोपं सः दे दर्शयति अपेहि इत्युक्ते कमौट् दुष्टे दुष्टे इत्युक्ते सः तत्र तंंचित सह निंदा कौती अहम तवद गृहम इदानम गा तटि उत्था अनुआया स्मुक् तस्य मनसी का भावना अधुना यदा वा अहम तब् गृह नोचे आगे नोचे अहम गा अभी तस्वन उत्तम प्रकारेण कौ तदा सा झटिति उत्थाय शी कम्स् इमिजियेट्लि औट् आफ् वाटर् एण्ड् फालोस् मी इति सः चिन्तति हा स्वस्य चिन्तनम् अस्ति तादृशं संस्कृतभाषायां भाषायाः अवगमम् अवगमनं सा कर्तुं शक्नोति इति लेखकस्य चिन्तनम् अधुना अस्तु धन्यवादः अवोष्टमहोदय अग्रिमे जयन्ती भगिनी अन्तिमम् अन्तिमं पठति वा आं बेनि वस्तुतः नामकं. स्थलेषु स्नेहानामकं एतत् सर्वनाटकं तथा आरभ्य एतत् एतच्च सर्वं नाटकम् इतरे प्रत्यक्ष प्रत्यक्षदिष्टारः ग्रामीण ग्रामीणाः श्रुत्वा वदन्ति स्म अहो संस्कृतानुरागः पशु पशूनां पशूनाम् इति वस्तुतः वस्तुतः प्रथमं तु एतावत्पर्यन्तं वदतु किमस्ति एतत् सर्वं नाटकं दत् एतत् सर्वं ग्रामवासिनः दृष्टन्तः तदा ते सर्वे वदन्ति अहो संस्कृत संस्कृतस्य अ, अ, आ, आ, आ, आ, आ रागं पशूनामपि अस्ति इति सर्वे चिन्तितवन्तः वदन्ति स्म अभि अपि अनुरागः अनुरागै प्रीति प्रीति प्रीति प्रियं संस्कृते न प्रियम् अस्ति पश्यति ग्रामवासिनः किञ्चिदस्ति पशूनामपि संस्कृतस्य अनुरागः संस्कृतस्य विषयस्य प्रेमः संस्कृतप्रेमिणः पशु अपि पशवः अपि इति सर्वं अन्ये अपि वदन्ति पश्यन्तु कथं सह वदति अहं गच्छामि नोचतं गच्छामि आगच्छतु नोचतां गच्छामि अस् इति आगच्छति तत्सर्वं दृष्ट्वा सर्वे जनाः अनुरागः पशुना इति अग्रिमे पठामि वस्तुतः ईदृशेषु स्थलेषु स्नेह स्नेहनामकं कारकम् अपेक्षते उत्तमतया वद वदनीयं चेत् इत्र, ईदृश इत्रशा, ईदृशानि कार्याणि पश्यति पश्यन्ति चेत् अपेक्षितम् तस्य इच्छा सूचयति इति सर्वे स्नेह नामकं संस्कृतेन स्नेह स्नेहभावम् इच्छा इति दृश्यते इति खलु बिन् अग्रिमे पठतु वदतु अनन्तरमहं मन स्ने स्नेह स्नेहबद्धामि अस्तु स्नेहबद्धाः बद्धाः बद्ध स्नेहबद्धाः हि सृष्टिः भाषानमे भाषानपेक्षा प्रभोः प्रभोः स्नेहबद्धा हि सृष्टिः भाषानपेक्षा भाषान् अपेक्षा प्रभो स्नेहभाषा भाषया एव वयम् निखिलम् विश्वम् जेतुम् पार पारयामः सा च भाषा संस्कृतम् भवितुम् अर्हति देश देशकालाति अतिथा सम्यक् <laughs> स्नेहबद्धा सृष्टि कृष्णं कृष्णं सृष्णि कृष्णं स्नेहभावनया एव सृष्टिकार्यं भवति भाष भासस्य अपेक्षा अपेक्षा प्रभो इति भासस्य भाषाणाम् अपेक्षा इति स्नेहभाषया एव वयं निखिलं विश्वं जेतुं परामय स्नेहभावनया वयं सर्वम् अखिलं जेतुं शक्यते इति पारं कर्तुं शक्यते तारयामः इति hmm. सा भाषा hmm. ईदृशभाषा एद्र, संस्कृतम् एव भवितुम् अर्हति देशकाल ah. अतीता भाषा संस्कृतभाषा इति सत्यं hmm. सत्यं <laughs> दृशेषु स्थलेषु स्नेहनामकं कारकमपेक्षते कारकम् इत्युक्ते क्रियान्वयी कारकमित्युक्ते क्रिया यदा क्रिया वयम् इच्छामः तदा कारकस्य आवश्यकता क्रियायाः प्रेरणा कारकं ददाति क्रियायाः प्रेरणा कदा भवति स्नेहान्वित स्नेहान्वितः शब्दैः क्रिया क्रियायाः प्रेरणा भवति स्नेह तत्र प्रेम्णा यदि वयं वदामः तदा सर्वं कार्यं सिद्ध्यति स्नेहबद्धा हि प्रभो हो, प्रभोः सृष्णि तत् स्नेहबद्धा स्नेहेन बद्धाः स्नेहभाषया एव वयं निखिलं विश्वं हेतुं पारयामः स्नेहभाषा स्नेहस्य भाषा मनसी स्नेता संस्कृत भक्त अर्ति देश काला गीता पशु पशूना भवि मनुष्याण विदेशी जे सखिल जगत अखिलजगती संस्कृतम् एव लिमिट्स भवितुम् अर्हति देशकालात् इदानीं खलु अधुना किमपि अभ्यासेन प्रेमतया प्रेमया एव श्राधितुं शक्यते एक एकवाक्यमस्ति बेनि तमिळ् मध्ये तमिळ्मध्ये कम्बर् इति एक कवि कविः आसीत् सः रामायणं लिखितवान् नार्त् मध्ये अस्ति किल रामचरितमानस् तादृशं तमिळ्मध्ये कम्बरामायणम् इति वक्तुं शक्यते तस्य शीलनं विपुणत्वं सूचितुं कम्बर् वीट् mm -hmm. कटुत्तरीं कविपाडुम् इति वदन्ति वार्ता अस्ति कम्ब कम्ब कम्बर् इति कविः अस्ति खल तत् खलु तस्य गृहस्य कौशालामे कौशाला, कौशाला इति पशुः अस्ति सः अपि कवि वक, कविता वक्तुं शक्यते इति अर्थं वा, वा, वा सम्यक् <tries> बहु सम्यक् इत्युक्ते स्नेहभावनया एव वयं सर्वे तत्र एकत्रीकरणं कदा भवति एव भवति न द्वेषेन तस्य निपुण धन्यवाद धन्यवादः अन्ये किमपि वक्तुमिच्छति वा एकमेकं वाक्यं राधाभगिनी रमाभगिनी विना भगिनी भारतमहोदय वक्तुमिच्छति वा आं uh, वदन् um, um, सर्वलोकाः hmm? पशु पशु hmm? पशुः uh, hmm? स्नेहभाषा वदन् वदंत, वदन्ति अवगच्छन्ति अण्डर्स्टेण्डिङ्ग् भवति इति अवगच्छन्ति पशवः अपि सर्वे जनाः अपि का भाषा नेहभाषा हा उत्तमम् उत्तमम् उत्तमम् उत्तमं उत्तमस्ति राधाभगिनी वीणा भगिनी एकमेकं वदतु अनन्तरं वयं स्थगामः स्थगयामः राधाभगिनी वदति वा its language of love right everybody understands language of love so yeah i said doesn't matter whether it is sanskrit or anything it is i can say one satya satya sneha bhasha sneha bhasha sarve janati jananti sarve jananti yeah janat chatni uh -huh. uh -huh. veena bagini um yeah how many bhasha um लेङ्ग्वेज् इस् ओन्ली अ मीडियम् आफ् एक्स्प्रेशन् भगिनी बट् एक्स्प्रेशन् शुड् बी आफ् लव् सत्यं बि एनी लेङ्ग्वेज् बट् द भाव इस् इम्पार्टेण्ट् इस् इम्पार्टेण्ट् अधुना वयम् अपि भावेन स्नेहेन बद्धाः वयं सर्वे तत्र माध्यमपि आफ्लैन् नास्ति आन्लैन् माध्यमेन अपि वयं सर्वे बद्धाः तत् महत्त्वपूर्ण किमस्ति स्नेहभावम् भाषा तस्य चिन्तनं नास्ति कस्य चिन्तनमस्ति मनसि का भावना, भावना कया भावनया वयं वदामः कया भावनया अस्माकम् आचरणं भवेत् तत् पशु अपि भावा अवगच्छन्ति <laughs> सत्यं योग्यं बहु सम्यक् बहु सम्यक् अस्तु रमा भगिनी वक्तुम् इच्छति वा रमा भगिनी कथा न पुनः एकवारं सर्वे शृण्वन्तु रेकार्डिङ्ग् प्रेषयिष्यामि अस्तु सर्वे शृण्वन्तुमहोदय भवान् सम्यक् सम्यक् अस्ति खलु अस्तु वार्ता एक एक एकशब् एकं वदनीयं बेनि वयमपि uh, uh, स्नेहभावेन संस्कृत प्रीत्या बद्धाः सन्ति स्नेहभाव लर्न् द लाङ्ग्वेज् लव लव् एण्ड् भाषा सत्यं सत्यं योग्यमेव बहु सम्यक् धन्यवाद भगिनी सर्वेषां धन्यवादः धन्यवादः पुनर्मिलामः पुनर्मिलामः बहिनी